श्रीमद्भागवत् महापुराणम् ॐ नमो भगवते वासुदेवाय पञ्चमः स्कन्धः अथ प्रथमोऽध्यायः प्रियव्रतचरित्र राजोवाच प्रियव्रतो भागवत आत्मा राम कथं मुने गृहे रमति यन्मूलः कर्मबन्धपराभवः न नूनं मुक्तसङ्गानां तादृशानां द्विजर्शभ गृहेष्वभिलेवे सोऽयं पुंसां भवितुमर्हति महतां खलु विप्रर्षे उत्तमश्लोकपादयोः ध्यायानिवृत्तचित्तानां न कुटुम्बे संशयोऽयं महान् ब्रह्मन्दारागारसुतादिषु सक्तस्य यथसिद्धेः अभूत्कृष्णे च मतिरच्युता श्रीसुकुवाच बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसद्वयितकथाम् किञ्चिदन्तराय विहतां श्वां शिवतमां पदवीं न प्रायेण हिन्मन्ते यर्हि भावह राजन् स राजपुत्रप्रियव्रतः परं भागवतो नारदस्य चरणोपसेवयाञ्जसावं यत परमार्थसत्त्वत्तो ब्रह्मशस्त्रेण दीक्षिष्यमाणोऽवतिन् वनितलं परिपालनायां नाथ प्रवरगुणगणैकान्त भाजनतया स्वपित्रोपामन्त्रितो भगवती वासुदेव एवाव्यवधानसमाधियोगेन समावेशितसकलकारकक्रियाकलापो नैवाभ्यनन्दद्यपि तद्प्रत्यां ज्ञातव्यं तदधिकरण आत्मनोऽन्यस्मादशोतुं दशतोऽपि पराभवन्मन्विक्षमाणः अथ भगवानादिदेव एतस्य गुणविसर्गस्य परिभृषणान्युध्यानव्यवसितसकलजगदभिप्राय आत्मयोनिरखिल निगमनिजं गणपरिवेष्टितः स्वफणादवत तार स तत्र तत्र गगनतल उडूपतिरिव विमानावलिभिरभिरनुपथं ममरपर्वीं परिवृढैरभिपूज्यमानः पतिपति च वरूथय स सिद्धगन्धर्वशाध्यचारणमुनिगणैरुपगीयमानौ गन्धमादनद्रोळीम् अवंभासयन्नोपसर्पत तत्र ह वा एनं देवर्षिहर्यशालेन पितरं भगवन्तं हिरण्यगर्भमुपलभमान सैवोत्थायार्हणेन स पिता पुत्राभ्याम् अविताञ्जलिरुपत्तस्थे भगवानपि भारततदुपनीतार्हणः सूक्तवाके नातितरामुदितगुणगणावतार सुजयः तियव्रतम् आदिपुरुषस्तं सदयहासावलोक इति होवाच श्रीभगवानुवाच निबोधतातेदमृतं ब्रवीमे मा सूयितुं देवमहर्षप्रमेयं वयं भवस्ते तत एष महर्षिव हास सर्वे व्यवशायस्य दृष्टम् न तस्य कश्चित्तपसा विद्यया वा न योगवीर्येन मनीषया वा नैवार्थधर्मैपरतः स्वतो वा कृतं विहन्तुं भूयात् भवाय नासाय च शोकाय मोहाय सदाभयाय सुखाय दुःखाय च देहयोगम् अव्यक्तदिष्टं जनताङ्गधत्ते यद्वाचि तन्त्यां गुणकर्मदामभिसु दुस्तरैर्वस्य वयं सुयोजिताः सर्वे वहामो बलमेश्वराय प्रोतानसि वदिपदे चतुष्पदः ईशाभिशिष्टं ह्यवरुन्ध्यमेङ्गं दुःखं सुखं वा गुणकर्मसङ्गात् आसाय तदद्यते युक्तनाथ्यक्ष्मतान्धायव नीयमानाः मुक्तोऽपि तावन्विभ्रिया स्वदेहम् आरब्धमस्नन्नभिमानशून्यः यथानुभूतं प्रतिया तद् निद्रा किं तन्यदेहाय गुणान्न विग्नये भयं प्रमत्यस्य वनेष्वपिप् स्याद्यतशास्ते सः षट्सपत्नः जितेन्द्रियस्यात्मरते बुधस्य गृहाश्रमः किं नु करोत्यवद्यं यषट्सपत्नान् विजिगीषमाणो गृहेषु निर्विश्यतेत पूर्वम् अत्येतदुर्गाशित उर्जितारिं क्षीलेषु कामं विचरेद्विपश्चितं त्वं भुङ्क्षेह भोगान् पुरुषात्जिष्टान् प्रकृतिं भजस्व